हरि श्री श्रीसीता रामचन्द्राभ्या नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्विचत्वारिंश सर्गः लङ्कां प्रति वानराणाम् आक्रमणम् राक्षसैः सह सङ्ग्रामश्च ततस्ते राक्षसा तत्र गत्वा रावण मन्दिरम् निवेदयन्तु रामेण सह वानरै क्रुद्धां तु नगरीम् श्रुत्वा जातक्रोधो निशाचरहे विधानम् द्विगुणम् कृत्वा प्रासादम् चाप्यरोहत स ददर्श वृताम् लङ्काम् स शैलवनकनम् असङ्ख्येयैः हरिगणैः सर्वतो युद्धकाङ्क्षिभिः स दृष्ट्वा वानरैः सर्वैः वसुधाम् कपिलीकृताम् कथं शप क्षपयित व्यासु इति चिन्ताय परो भवेत् स चिन्तयित्वा सुचिरम् धैर्यम् आलम्ब्य रावण राघवं हरियुथांश ददर्शायतलोचन है राघवे सैन्येन मुदितो नाम दृष्ट्वा दाश्रती लङ्काम् चित्रध्वज पताकिनीम् जगाम ससाफीताम् दूयमाने न चेतसा अत्र सा मृगजावाक्षी मत्कृते जनकस्मजः पीड्यते शोकसन्तप्ता कृशा स्थण्डी लशायिने धर्मात्मा वै देहीम् क्षिप्रम् आज्ञापयत् राम वानरान् द्विशताम्बधे एवम् मुक्ते तु वचसि रामेणाक्लिश्च कर्मणः सङ्गर्चमाणा प्लवगाः सिंहनादे रनादयन् शिखरे विचिरा मयिताम् लङ्काम् मुष्टिभिरेव व इति स्म सर्वे मनासि हरिूथपः उद्य गिरिशृङ्गाणि महान्ति शिखराणि च तरुचोत्पाट्य विविधान् तिष्ठन्ति हरियूथपः प्रेषतो राक्षसेन्द्रस्य तान्यलीकानि भाग च राघवे प्रियकामार्थं लङ्कां मारुहस्तराय ते तांगवक्त्रा हे रामार्थे चक्षजीवितः लङ्कामेवाभ्यवर्तन्त शालभूधरयोधिनः ते ध्रुवे पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमः प्राकाराग्राण्यसङ्ख्यानि मम तोरणानि च परिखान् पूरयन्तश्च प्रसन्न सलिलाशयान् पाशुभिः पर्वताग्रहश्च तृणैः काष्ठै च वानरः ततसहस्रयूथाश्च कोटियूथाश्च यूथपः कोटियूथश्च ताचान्ये लङ्कामारुरुस्तर काञ्चनानि प्रमर्दन्तोरणानि प्लवङ्गमः कैलास शिखराग्राणि गोपुराणि प्रमथ्य च आप्लवन्त प्लवन्तश्च गर्जन्तस्य प्लवङ्गमः लङ्कां ताम् अभिधावन्ति महाभारणसन्धिभः जयति उरुबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभि पालितः इत्येवं घोषयन्तश्च गर्जन्तस्य प्लवङ्गमः अभ्यधावन्त लङ्काय कामूपिण का वीरबा सुबाच नलच पनस तथा निपीढ़ोप पन निविस्टास्ते प्राकार हरियूथक्रु कंधो वर निवेशनम पूर्व्वारकुम कोटिदशत भी आवृत्य बलव हरिभिः जित काशिभिः सहायार्थे तु तस्यैव निविष्ट प्रहतो हरिः पनसश्च महाबाहु वानरे अभि संवृतः दक्षिण द्वारमासाद्य वीरशत बलि कपि आवृत्य बलवन्तस्थो विंशत्या कोटिभिवृतः सुषेण पश्चिमद्वारम् ग्वा तारा पिता बली आवृत्य बलवि कॉटिभी उत्तर द्वारा गौमित्रिण सह आवृत्य बलव सुग्रीव हरीशर है गोलांगोल महाकायु गो भीमर्शन महावीर्य तस्थो रामचतः वृक्षाण भीमकोपा तुम्ह्रशत्रुब्या महवीर्य तस्थो राम से पार्षद तु महवी गीषण वृथयत सचिव तस्थो यहाबल गजोंगवाचव शरभगन्धमादनः समन्तात् परिधावन्तु रक्षु हरिवाहिनीम् ततः क्वीतात्मा रावणो राक्षसेश्वरः निर्याणं सर्वसैन्यानां द्रुतम् आज्ञापयत्तद एतत् श्रुत्वा तदा वाक्यं रावणस्य मुखे ऋतम् सहसा उद्घुष्टम् रजिनीचरै भेर्य प्रबोधिताभिर्य चन्द्रपाण्डुरपुष्करः हेमकोणैः अभियता राक्षसानाम् समन्ततः विदेधुश्च मह घोषाय शङ्खा शतसहस्र च राक्षसानाम् सुघोराणाम् मुखमारूतपूरितः हे स शङ्खार्जुनेचरः विद्युन्मण्डलसन्नद्धः स बलाका इवाम्बुदः निष्पतन्ति तत सैन्य हृष्टा रावणचोदितः समये पूर्यमाणस्य वेगैव महोदधि ततो वा नरसैन्येन मुक्तो नादश्च मन्ततः पूरितो येन प्रसा नु प्रस्थकन्दरः शङ्ख दुन्दुभि सागरं चाभिनादय गयानां ब्रमितो सार्धं हयानाम् ह्रेशितैरपि रथानां नेमि निर्घोषये रक्षसाम्बनस्वनै एतस्मिन्नन्तरे घोरै संग्राम समपद्यत रक्षसां वानराणां च यथा देवासुरे पुरा ते गदाभिः प्रदीप्ताभि शक्ति शूल परश्व निजघ्नो वानरान् सर्वान् कथयन्तः स्वविक्रमान् तथा वृक्षे महर्काय पर्वताग्रेच वानराः निजघ्नो तान् रक्षासि नखै दन्तै च वेगिनः राजाय जयति सुग्रीवे इति शब्दो मह न भूत् राजञ्जय जयत्युक्त्वा जै स्व स्व नाम कथान्ततः राक्षसा सपरे भीमाय लाकारमहिं गतान् वानरान् भिन्दि पालयश्च चै। शूलैश्चैव वानरा चापि संक्रुद्धाय सा कालस्थान् बहिं गतः राक्षसान् प्रातयामासु क्षमाप्लुत्यः स्वबाहुभिः सम्प्रहरयतु मास शोणी च रक्षसां वानराणां च सम्भूवाद्भुतोपमः इत्याचे श्रीमद् रामायणे वाल्मीकि अधिकव्यकाण्डे द्विचत्वारिंश सर्ग श्रीसीतारामचन्द्र नमस्तु